अत दियाष्ट चतु प्रश्न प्रारंभ जुषिष्टो नमो न अतिर्देमन मुपजाई विद्वाश्वा अनेजो विहत् शत्रुज काम भरा भोजना श महते सौभगाय तवद्युमान्युतमा सत सन्द्रास्पत्यगुंसु य ममाकृणुष्व शत्रो जनामभितिष्ठा महागुंसि अग्नेयो नोभितो जनः वृको वारोजिघागुंसति तादिस्त्वम् वृत्रहञ्जहि वस्वस्मभ्यमाभर अग्नेयो नोभिधासति समानायश्चनिष्ट्यः विध्मस्येव प्रक्षालतः मातस्योच्छेषि किञ्चन देवो विज्ञातवीर्यः वृत्रः पुरुचेतनः अपप्राच इन्द्रविश्वागुम् अमित्राय अपापाचो अभिभूतेऽनुदस्वा अपोदीचो अपशूराधरा च ऊरौ यथा तव शम् महे वृत्राय रुचेरथङ्गवेषणगुंहरिभ्याम् उपब्रह्माणि जुरुषाणवस्थुव विबाधिष्ठास्य रोदसीमहित्वा इन्द्रो वृत्राण्यप्रतिजघन्वान् हव्यवाहमभिमातिषाहम् वक्षोहणम् वृतलासुदिष्णुम् ज्योतिष्मन्तम् देव्यतम् पुरन्ध्यम् अग्निग्रः सृष्टकृतमाहुवेम स्विष्टमग्ने अभितत्प्रणाहे विश्वा दृतना अभीष्युर पंथादी भाई ज्योतिष्मध्ये ह्यजर न आयु ताम विष्प देवं सीढ़ते मने वा जातवेदस्याशक विश्वा दुर्गहा जातवेद सिंधुर्न नादुता दिपर्षि अग्नेत्रिमसृण्न अस्माकम् बोध्यवितातनूनाम् ऊषागान्वेतुनः ऊषारक्षत्वर्वतः पूषावाजगुम्सनोतुनः पूषे मा आशा अनुवेदसर्वा आः सो अस्माकम् अभयतमेन नेषत् स्वस्तिदा अग्रिणिः सर्ववीरः त्वप्रयच्छन् पुरजेतु प्रजानन् त्वमग्ने सप्रथा असि दृष्टोः ताबरे अन्यः स्वजायज्ञम् वितन्वते आग्ने रक्षा से रक्षागुंसि सेधति शुक्रशोचिरमर्त्यः शुचिः पावकगीड्यः अग्नेरक्षाणो अगुंहसः प्रतिष्मदे वरीषतः प्रपिष्ठे रजरोदः आग्नेहगुंस्यन्येत्रिणम् दीद्यन्मर्त्येष्वा स्वेक्षये शुचिव्रत आवातवाहिभेषजम् विवातवाहि यद्रपः स्वगं हि विश्वभेषजः देवानान्दूत ईयसे द्वाविमौ वातौ वातः आसिन्धोरापरादः दक्षम् मे अन्य आवातु परान्यो वातु यद्रपः यरदोवातते गृहे अमृतस्य निधिर्हितः ततो नो जीवसे ततोनो देह देहि भेषजाम् महा आवह ेशज शंभोर्मजो भो हृद प्रण आयोगुंशिताषत्मनेज असमन सासन हव्यमिषे अोिभेशजो अग्निराहुता स्वाहा पिपर्तुन स्वगा दिगन् कामो भूत भव्य ्राडे को विराजति स इदम् प्रतिपप्रथे ऋतोऽनुत्सृजते वशी कामस्तदग्रे समवर्तताधी मनसोरेतः प्रथमम् यदा सेयेत् सतो बन्धुमसति निरविन्दन् हदिप्रतीश्य कवयो मनीषा त्वया मन्यो सरथमा हर्षमानासो धुषतामरुत्वः येषम आयुधा सगुंसितानाः उपप्रजन्ति नरो अग्निरूपाः मन्युद्भगो मन्युरेवास देवः मन्युरोहोता वरुणो विश्ववेदाः मन्युम् विषकीडते देवयुन्तेः पाहिनो मन्यो तपसाश्रमेण त्वमग्ने व्रतभृत्सुचिः देवागुम् आसादया इह अग्ने हव्यायवोढवे व्रतानुमिभ्रद्व्रतवा अदाभ्यः जानो देवागुची दधग्रत्न सुबिधानो अग्ने गोपालयनो जीवसे जातवेद चक्षुषे मनसोहे तेोहेत ब्रह्मणोहे व्योमा घाजर भिदति तमग्नेोमा चक्षुषाज मनसा योवाच ब्रह्मणा घाजर भिदति तयाग्ने त्वम् मेऽन्या अमुममे निङ्कृणा यजत्क्यञ्चासौ मनसा यच्चवाचा यज्ञैर्जुहोतयजुषा हविर्भिः त्वन्मृत्युर्निवृत्या संविधानः पुरादिष्टादाहुतेरस्य हन्तु यातु धानानिरक्षः ते अस्य घ्नन्त्वनृतेन सत्यम् आद्यमस्य मध्यन्त मादत्समृद्धिरदसो करोति हन्मिते हन्कृतगम् हदिः व्यो मेघोरमचीकृः अपाञ्चौत उभौ बाहू अपनह्याम् न्यास्यम् अपनह्यामि बाहू अपनह्याम् न्यास्यम् अग्नेर्देवस्य ब्रह्मणा सर्वम् देवधिषम् कृतम् पुरा यज्ञम् देवेषु नस्कृधि सृष्टमस्माकम् भूयात् माऽस्मान्प्रापन्नराजः अन्तिदूरे सतो अग्ने भ्रातृयस्याभिदासदः वषत्कारेण वज्रेण कृत्या गुम्हन्विकृतामहम् कोमानक्तम् दिवासायम् राजश्चाह्नो निपीयते आद्यातमिन्द्रवज्रेण भ्रातृल्यम् पादयामसि इन्द्रस्य गृहोऽसि तन्त्वा प्रपद्ये स गुःसाश्वः सह जन्मे अस्ति तेन ईडे अग्निम् विपश्चितम् गिरा यज्ञस्य साधनम् सृष्टिवानन्धितावानम् अग्ने शकेमते मते गमम् देवस्य वाजिनः अविद्वेषागुंसितरेम अपतम् आसमनसौ समोकसौ सचेतसौ सरेतसौ उभौ मामपतञ्जातवेदसौ शिवो भवतमद्यनः स्वयम् कृण्वानः सुगमप्रजावम् तिग्मशृङ्गो वृषभश्रोषुपानः रत्नगुंसधस्थमनुपश्यमानः आतन्तुमग्निर्दिव्यम् तान् त्वन्नस्तन्तु रुतसेतुरग्ने त्वम् पन्था भवसि देवजानः प्रजाग्ने पृष्ठम् व्रजमारुहेम अथा उदुत्तमम् मुमुग्नः पिपाशम् मध्यमञ्छुता अवाधमानि जीवसे वयगुंसोमव्रते तव मनस्तनूषु बिभ्रतः प्रजावन्दो असीमही इन्द्राणी देवी सुभगा सुपत्नी उदगुंसेदपदिविद्ये जिगाज जगुंशदस्या दघनयोजनानि उपस्थगिन्द्रज्ञस्थरिरम् विभर्ति सेनाह नाम पृथिवी धनञ्जया विश्वव्यचादितिः सूर्यत्वक् इन्द्राणी देवी प्रासहा सानो देवी सुहवा शर्म यच्छतु आत्त्वा हार्षमन्तरभोः ध्रुवस्तिष्ठा विचाचलिः विशस्त्वा सर्वा ध्रुवम् विश्वमिदम् जगत् ध्रुवाः पर्वता इमे ध्रुवो राजा विशामयम् यह्वैधिमाव्यथिष्ठाः पर्वतजिवाविशाचलिः इन्द्रनिवेहद्ध्रुवस्तिष्ठा इह राष्ट्रमुधारय अभितिष्ठकृतम् यतः अधरे सन्तु शत्रवः इन्द्र इव वृत्रहातिष्ठा अलः क्षेत्राणि सञ्चयन् इन्द्रयेणमधीधरत् ध्रुवम् ध्रुवेण हरिषाः तस्मै देव अधिब्रवन् अयम् च ब्रह्मणस्पतिः जुष्टी नरो ब्रह्मणावः पितृणाम् अक्षमव्ययन्न किलारिषाथ यच्छरेषु वृधता रवेण इन्द्रे सुष्मदधाथावसिष्ठाः पावका नः वष्टधिजावसः सरस्वत्यभिधाने शिवस्यः मापस्फरेः पयसा आधक जुषस्वनः सख्यावेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म भृञ्जे हविर्नमसा बर्हिरग्नौ अयाविसृघृतवती सुवृत्तिः अन्यक्षिसद्मसदने पृथिव्याः अश्राय यज्ञः सोर्येन चक्षुः इहार्वाञ्चमतिह्वये इन्द्रम् जैत्राय चेतवे अस्माकमस्तु केवलः अर्वाञ्चमिन्द्रममुतो हवामहे योगो जिद्धनलिङ्गजेद्यः इमन्नो यज्ञम् विहवे जुषस्व अस्य कुर्मो हलिवो मे दिनन्त्वा असंमृष्टो विवस्वतः घृते नत्वा धूमस्तेके दुरभवद्भिविश्रितः अग्निरग्रे प्रथमो देवतानाम् सञ्जातानामुत्तमो विष्णुरासीत् दे। यजमानाय परिगृह्य देवान् दीक्षयेदम् हविरागच्छदन्नः अग्निश्च विष्णोतप उत्तमम् अहः दीक्षापालेभ्यो वनतगम् हि सक्रा विस्मैर्देवैर्जग्निः ये संविधानौ येक्षामस्मै यजमानाय धत्ताम् व्रतद्विष्णुस्तपते वीर्याय मृगो न भीमः भुवनानि विश्वाः नो मर्तोदयते स प्रयः सत्रा च मनसा जातै एतावन्तर्यमाविवासात् विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यान् ध्रुवासो अस्य कीरयोजना सह सुरुक्षितिकंसजनिमाचकार त्रिर्देवः पृथिवीमेष एताम् विचक्रमे शतर्चसंमहित्वा विष्णुरस्तु तपसस्तबीजान् त्रेषगृह्यस्य स्थविरस्य नाम होतारञ्जित्ररथमध्वरस्य यज्ञस्य यज्ञस्य केतुकम् पृषन्ताम् प्रत्यर्थिम् देवस्य देवस्य मह्ना श्रियात्वग्निमतिथिञ्जनानाम् आनो विश्वाभिरोधिभिः सजोषा आह ब्रह्मजुषानो हर्यश्व याहि परीवृजत्स्थविरेभिः सुशिप्र अस्मेकधृषणुम् सुष्ममिन्द्र इन्द्रः सुवर्षा जनयन् न हानि जिगायोषिग्भ्यः पृतना अभिश्रीः प्रारोच जन्मनवेकेतुमह्ना अविन्द ज्योतिर्बृहतेरणाय अश्विनावसे निह्वजे वा आनोनञ्जातगुं सुकृताय विप्रा प्रातर्युक्तेन सुमृतार्थेन उपागच्छतमवसा गतन्नः अविष्टन् धीष्वश्विनान आसु प्रजापद्रेतो अह्रयन्नो अस्तु आवान्तोकेतनयेतू तु जानाः सुरक्नासो देववीतिङ्गमेम त्वपुंसो मक्रतुभिः सुक्रजुर्भोः त्वम् दक्षै सुदक्षो विश्ववेदाः युम्नेभिर्द्युम्न्य भवो नृचक्षा आहषाढं युत्सुपृतनासुपप्रिम् सुवर्षा वत्स्वाम् नृजनस्य गोपाम् भरेषु जागं सुक्षितिगुम् शुश्रवसाम् जयन्तम् त्वामनुमदेमसोम भवामित्रो न सेव्यो धृता सुतिः लिभूतद्युम्न ए भया स्तोमो यज्ञस्य राध्यो हविष्मतः यः पूर्व्यायवेधसे न सुमज्जानये विष्णवे ददाशति महतो महि प्रवाहात् से दुश्रवोभिर्युज्यञ्चिदभ्यसत् तमुस्तोतारः पूर्व्यम् यथा विदरुतस्य गर्भगम् हविषापि पर्तन आस्य जानन्तो विष्णो विष्णोऽसुमतिम् भजामहे इमाधाना घृतस्नुवः हरि इहोपक्षतः इन्द्रगुं सुखतमे रथे एष ब्रह्मा प्रतेमहे विदधे शगुंसि शगुम् हरी यरत्वजः प्रते वम्बे मनुषो हर्यतम् वदम् इन्द्रो नामघृतान्नयः हरिभिष्टारुसे च ते श्रुतो गण आत्मा विशन्तु हरिवर्प्रसञ्जिरः आचर्षणि प्रामृषभो जनाम् राजाकृष्णेनाम् पुरुहूत इन्द्रः स्तुतः शतस्यन्नवसोपमद्रिक् युक्त्वा हरे कृषणायाश्चर्वान् प्रयत्सिन्धवः प्रसवञ्जदायन् आपः समुद्रगुम् रथ्येव जग्मुः दुग्धो अगुंसः यामसि त्वेन्द्रयाह्यर्वाङ् अरन्ते सोमस्तनुवे भवाति शतक्रतो मादयस्वा सुतेषु प्रास्माकुम् अवपृतना सुप्रयुत्सो इन्द्राय अहेडमान उपलाहि यज्ञाम् तुभ्यम् भवन्त इन्द्रवः कावो सह का वो न वज्रेम् स्वमोको अर्च इन्द्रागहि याते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि प्रते ऊर्मेम् अया पाहि प्रातर्युजा विबोधय अश्विना वेह गच्छतम् अस्य सोमस्य पीतये प्रातर्यावाणा प्रथमायजध्वम् पुरा गृद्धादररुषः पिबाधः प्रातर्हि यज्ञमश्विना दधाते प्रशकुंसन्ति कवयः पूर्वभाजः प्रातर्यजध्वमश्विना हि नात न सायमस्ति देवया जते स्प्यजतेचार पूर्व पूर्व यजम बनीता सोषे राष्णे असी प्रिचुमरज निरजय किलासम फलित किलासलो नाशापत्नस्वो अश्नुता वर्ण परा शेता निपत असितन्ते निनयनम् आस्थानमसि तन्तव असि क्लियस्योषधे निरितोनाशयापृषत् अस्थिजस्य किलासस्य तनोजस्य चयत्वचि कृत्यजाकृतस्य ब्रह्मणा लक्ष्मश्वेतमनीनसाम् सरूपानाम ते माता सरूपानाम ते पिता सरूपास्योषधे सा सरूपमिदम् कृधि शृणगुम् हुवे ममघवानमिन्द्रम् अस्मिन्भरे नृतमम्बाजसातौ शृण्वन्तमुग्रमोदये समत्सु धनन्तम् वृत्राणि सञ्जितम् धनानाम् भूदृथद्याम् पर्वतान् वासुषेवसो दिवोमनाधिहते या मनोभिया कोप यथ पृथिवीम् वृश्मिमातरः युधे प्रवेपयन्ति पर्वतान् विविञ्चन्ति वनस्पतीन् प्रो बालतमरुतो देवा इव देवासः सर्वजा विशा पुरुत्रा हि अनुप्रभो समत्सुत्वा हवामहे समत्स्वग्निमवसे वाजयन्तो हवामहे वाजेषु चित्रराधसाम् सङ्गच्छध्वगुम् संवदध्वम् म्भामनागुंसि मनागं देवाभागैर्यथा पूर्वे सञ्जाना उपासत समानो मन्त्रः समितिः समानी समानम् समानं सह चित्तमेषाम् समानम् केतो अधिसगुम् रभध्वम् सा ज्ञाने नवोहविषा यजामः समानीव समाना हृदयानि वः समानमस्तु बोमनः यथा वस्तु सहासति सा ज्ञानन्नश्वैः सा ज्ञानमरणैः सा ज्ञानमश्विना युवम् यहास्मासु नियच्छतम् सा मे बृहस्पतिः सा ज्ञानगुंसविताकरद् सा ज्ञानमश्विना युवम् इह मह्यन्नियच्छताम् उपच्छायामि बघ्नेः अगन्म शर्म ते वजाम् अग्ने हिरण्यसन्दृशः अदब्धेभिः सवितः पायुभिष्टाम् शिवेभिरद्यपरिपाहिनागजम् हिरण्यजिह्वः सु पितायनव्यसे रक्षामाकिर्ना अघशगुंसजीषत मदे मदेहि नादुः योथा गवामृजुक्रतुः सङ्गृभाय पुरोषत उभया हस्त्यावसो शिशिहिराय आभर शिप्रिण्वाजानाम् पते शचीभस्तवदपुंसनाः आतून इन्द्रभाजय वोश्वेषु शुभ्रुषु सहस्रेषु तु विमघ यद्देवादेवहेढनम् देवासश्च कृमावजम् आदित्यास्तस्मान्मायूयम् ऋतस्य अर्थेन मुञ्चत ऋतस्यर्तेनादित्याः यजत्रा मुञ्चतेऽहमा यज्ञैर्वो यज्ञवाहसः आशिक्षन्तो न शेकिम मेधस्वता यजमानाः शुचाद्येन जुह्वतः अकामा वो विश्वे देवाः शिक्षन्तो नोपशेकिम यदि दिवा यदि न त्वम् भूतम् मातस्माद्भव्यम् च द्रुपदादिवमुञ्चत् द्रुपदादिवेऽन्वमुचानः सिन्नस्मात्विमलादिव गोतम् पवित्रेणेवाज्यम् विश्वे मुञ्चन्तु मेन सह उद्भजन्तमसस्परि पश्यन्तो ज्योतिरुत्तरम् एवम् देवत्रासूर्यम् अगन्मज्योतिरुत्तमम् वृषासो अगुंसः पवते हविष्मां सोमह इन्द्रस्य भागरुतयः सतायः समा वृषाणम् वृषभम् कृणोत् प्रियम् विषागम् सर्ववीरगम् सुवीरम् कस्य वृषा सुते स चा नयित्वा अन्वृषभोरणत् रत्रः सोमपीतजे यस्ते शृङ्गवृष नपात् यस्मिन् दध्र आमनः तगम् सध्वीचीरुतज जा वृष्णजानि पोगस्यानि नियुतः सश्चुरिन्द्रम् समुद्रम् न सिन्धव उक्थसुष्माः उरव्य च सङ्गिर आविशन्ति सगरस्य बुध्नात् यो अक्षेणेव चक्रिया विश्वक्तस्तम्भ पृथिवीभूतद्याम् अक्षोदयच्छव साक्षामबुध्नम् वार्णवातस्तविषीभीन्द्रः दृढान्यवघ्ना दुषमान ओचः अवाभिनत्कुभः पर्वताना आलो अग्ने सुकेतुला रयम् विश्वायुपोषसम् मार्डीकन्धेः जीवसे कगुम् सोममहे भगम् नरतायते नृतायते दक्षन्दधासि जीवसे रथयुञ्जते मरुतः शुभे सुगम् सोरो नमित्रा मित्रावरुणागविष्णुषो प्रजागुंसु चित्रा विचरन्ति तन्यवः दिवः सम् राजापयसान उक्षतम् वाचगुंसु मित्रावरुणा विरावती परर्जन्यश्चित्राम् वदति श्रीमतीम् अभ्रावसदमरुतः याम्बर्षयतमरुणामरेपसम् अयुक्तसप्तशिन्ध्युवः सोरोरथस्य मक्त्र्यः ताभिर्याति स्वयुक्तिभिः वहिष्ठेभिर्विहरनियासि तन्तुम् अपव्ययम् न सितम् देववस्वः दविध्वतो रश्मयः सौर्यस्य चर्मे वा बाधुस्तमो अप्सन्दः अर्जन्याय प्रगायत दिवस्पुत्राय मेधुषे स नो यवसमिच्छतो अच्छावदवसङ्गेर्भिराभिः स्तुहि पर्जन्यन्नमसापि वासा कनिक्रदद्वृषभो जीरदानुः रेतोदधात्वोषधीषु गर्भम् यो गर्भमोषधीनाम् गवाङ्कृणात्यर्वता पर्जन्यः पुरुषीणाम् तस्मादि दास्ये हरिः इडा अन्नः संयतम् करत् त्रिस्रोजराग्नेशस्त्वाज शुचिम् घृते न शुचयः स्वपर्यन् नामानि चिद्दधिरे यज्ञिजानि असूदयन्त तनुवः सुजाताः इन्द्रश्च नः शुनासीरौ इमञ्यज्ञम् मिमिक्षतम् गर्भन्धदग् स्वस्तदे ययोरिदम् विश्वम्भुवनमाविवेश यजौरांदोमहरासिरा मृतुभ संविधान इंद्रवंत हिजंजुषे आघाए अग्निमींधरे स्णं बिराष यहां युवा सखा अग्न इंद्रस् मेदिनाथ वृत्रण्य प्रति युवगुं वृत्रह ताभ्यागुंसुवर जग्र यावातस्थतुर्भुवनस्य मध्ये प्रचर्षणी वृषणा वज्रबाहुः अग्नी इन्द्रावृत्रहणाहुवेवाम् उत नः प्रिया, प्रियासो सप्त स्वसासु जुष्टा सरस्वती स्तोम्याभूत् इमा जुह्वानायुष्मदानमोभिः प्रतिस्तोमघम् सरस्वतिजुषस्व तप शर्मन्प्रियतमे उपस्थेयामशरणम् न वृक्षम् त्रीणि पदा विचक्रमे विष्णुर्गोपा अदा आभ्यः ततो धर्माणि धारयन् तदस्य प्रियमभिपाथो अस्याम् नो यत्र देवजपो मदन्ति पुरुक्रमस्य स हि बन्धुरित्था विष्णा परमे मध्व उत्सः कृत्वादा अस्थुश्रेष्ठः अद्यत्वावन्वान् सुरे ग्राः मर्त आनाशसुभृत्यम् इमा ब्रह्म ब्रह्मवाह प्रजात आ बर्हि सीदीहिसूरपुरोडाशम् उपनःसूरभो गिरः शृण्वन्त्वमृतस्य ये स्मृटिका भवन्तु नः अद्या विश्वानि देव सवितः दुरितानि परासु वा यद्भद्रम् तन्म आसु वा शुचिमर्कैर्बृहस्पतिम् अध्यरेषु नमस्यत अनाम्या च आचके या धारयन्त देवासु दक्षा दक्षितारा असुर्याय प्रमहसा स यत्क्षेति सुधित ओकसिस्वे तस्मापिडापिन्वते विश्वदानी तस्मै विशः स्वयमेवानमन्ति यस्मिन्ब्रह्म ब्रह्मा राजने स कोतिमिन्द्रसच्युतिम् सच्युतिम् जघनच्युतिम् कनात्काभान्न आभर प्रयप्स्यन्निव सख्योः इन इन्द्रमृधो जहि कनेखुलदिव सापयन् अभिनः सुष्टुतिन्नया प्रजापतिस्त्रियाम् यशः मुष्कयोरदधात्सपम् कामस्य तृप्तिमानन्दम् तस्या आग्ने भाजयेहमा मोदः प्रमोद आनन्दः मृष्टयोर्निहितः सपः श्रुतेव कामस्य तृप्त्याणि दक्षिणानाम् प्रतिग्रहे मनसश्चित्तमाकूतिम् वाचः सत्यमशीमहि रूपमन्नस्य यशश्रीश्रयताम् यथाहमस्यादुग्स्त्रियैपुमान् यथा स्त्रीतृप्यज पुंसि प्रिये प्रिया एवम्भगस्य दृप्याणि यज्ञस्य काम्यः प्रियः तदा मीप्यग्निर्वदति तथेति वाजुराह तत् हन्तेति सत्यम् चन्द्रमाः आदित्यः सत्यमोमिति आपस्तत्सत्यमाभरन् यशो यज्ञस्य दक्षिणा असौ मे कामः समृद्ध्यताम् न हि स्पशमविदन्नन्यमस्मात् वैश्वानरात्पुर एतारमग्नेः अथेममन्थन्नमृतमोराः वैश्वानरङ्क्षेत्रजित्याय देवाः येषा मिमे पूर्वे अर्मा स आसन् अयोपाः सद्मविभृता पुरोणि वैश्वानरत्वजाते पृथिवीमन्यामभितःस्थर्जना सह पृथिवीम् मातरम् महीम् अन्तरिक्षमुपब्रुवे बृहती मोदये दिवम् विश्वम् बिभर्ति पृथिवीम् अन्तरिक्षमुपबृहे दुहेद्योर्बृहती पयः न ता न नता न दभातितस्करः नैना अमित्रोऽव्यचिरादधर्षति देवादिश्चयाभिर्यजते ददाति च ज्योगित्ताभिः स च ते गोपतिः सह न ता अर्वारेणुपटो अश्नुते अभि पुरुगायमभयन्तस्य ता अनु गावो मर्त्यस्य विचरन्ति यज्वनः रात्रे व्यक्षदायते पुरुत्रा देव्याक्षभिः विश्वाधिश्रुयोधित इवाकरम् वृणेष्व दुहितर्दिवः रात्रीस्तो मन्नजिग्युषी देवीम् वाचमजनयन्त देवाः ताम् विस्वरूपाः पशवो वदन्ति सा नामन्द्रे शमार्जन् दुहाना धेनुर्वागस्मानुपसुतेतो यद्वाग्वदन्त्यपि चेतनानि राष्ट्रिदेवानान्निषसादमन्द्रा चतस्र ओर्जन्तु दुहेपयांसि क्व स्विदस्याः परमम् जगाम गौरीमिमायसलीलानि तक्षति एकपदी सा चतुष्पदी अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् तस्यागुम्समुद्रा अधिविक्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः ततः क्षरत्यक्षरम् तद्विश्वमुपजीवति इन्द्रासूरा जनजन् विश्वकर्मा मरत्वागम् अस्तु गणभान् स जातवान् अस्य स्नुषा श्वशुरस्य प्रशिष्टिम् सपत्नापाचम् मनसा उपासताम् इन्द्रः सूरो अत रद्रजागंसि स्नुषा सपत्ना अजगम् शत्रो अम् जगदुजर्घृषणः अजम् वाजम् जगदुवाजसादौ अग्निः क्षत्रभृदनिभृष्टमोदः सहस्रियो दीप्यतामप्रयुच्छन् विभ्राजमानः सविधान उग्रः आन्दरिक्षमरुहदगन्द्याम् वृषास्य गम् शर्वृषभाजगृह्यसे दिव्यः कर्मण्यो हितो बृहन्नाम वृषभस्य जाकुत् पिशो वा भवतु अयम् यो मामको वृषाः अथो इन्द्र इव देवेभ्यः विब्रवीतु जनेभ्यः आयुष्मन्तम् वर्चस्वन्तम् अथो अधिपतिम् विशा अस्याः पृथिव्या अध्यक्षम् इममिन्द्रवृषभम् कृण यः स्वृङ्गस्व वृषभः कल्याणोद्रोण आहितः कालेवलप्रगाणेन वृषभेण जजामहे वृषभेण यजमानाः अक्रूरेणैव सर्पिषाः वृधश्च सर्वा इन्द्रेण पृतनाश्च जजामसि यस्याय वृषभो हविः इन्द्राय परिणीयते अथोऽहन्ति वृतम् यतः प्रणावहप्रणेरसत् अग्र उद्धिन्द्रतामसत् इन्द्रसुष्मन्तनुभामे रजस्व नीचा विश्वा अभितिष्ठाभिमातेः निशृणेह्याबाध्यो न अस्ति परन्नो लोकम् गृणभिगीरदानो प्रेह्यभिप्रेः प्रभरा सहस्व मा विवे विशृणष्व उदीडितो वृषभतिष्ठसुष्मेः इन्द्रशत्रोऽन्पुरो अस्माकयुध्य अग्ने जेता त्वम् जय शत्रोन्सहस कोजसा विशत्रो न विमृहोऽनुदा एतन्ते स्तोमन्तु विजातविप्रः प्रथन्नघीरस्वपा अतक्षम् यदीदग्ने प्रतित्वम् ैरपयेनाजयेम यो घृतेनाभिमानितः इन्द्रजैत्राय जज्ञषे स नः सङ्कासुपारज पृतनासाह्येषु च इन्द्रोजिगाय पृथिवीम् अन्तरिक्षकम् सुवर्महत् वृत्रहा पुरुचेतनः इन्द्रोजिगाय सहसा इन्द्रो जातो विपुरो रुरोज जा, स नः परस्पावः कृणोत् अयम् कृत्तुरगृभीतः विश्वजिदुद्धिदित्सोमः ऋषर्विप्रः काव्येन वाजुरग्रे गायज्ञप्रीः सा गङ्गन्मनसा यज्ञम् शिवो निजुद्भिः शिवाभिः वायो शुक्रो अयामि ते मध्यो अग्रन्निविष्टिषो आयाहि सोमपीतये स्वारुहो देवनियुत्पदा इममिन्द्रवर्धयक्षत्रियाणा अयम् विशाम् विश्वतिरस्तु राजा अस्मावर्चागुंसि धेहि अवर्चसङ्कृहि शत्रुमस्य इममाभजग्रामे अश्रेषुघोषो निरवम् भजयो मित्रो अस्य तर्ष्मक्षत्रस्य कगुभिः श्रयस्व ततो न उग्रो विभजा वसूनि अस्मेऽभ्या वा पृथिवी भोरिवामाम् सन्धुहाम् घर्मरुभेव धेनः अयगुम् राजा प्रिय इन्द्रस्य भूयात् प्रियोगवापोषधीनानुतापाम् गुणज्वित उत्तरावन्तमिन्द्रम् येन जयासि न परा अधो राजन्ुत्तमम् मानवानाम् उत्तरस्त्वमधरे ते सपत्नाः एकवृषा इन्द्रसखाजिगीवान् विश्वा आशाः प्रतलाः सञ्जयन् जयन् अभितिष्ठशत्रो जतः सहसा तुभ्यम्भरम् दिक्षितजविष्ठा बलिमग्ने अन्तित ओत दूरात् आभन्तिष्ठस्य बृहत्ते अग्ने महि शर्म भद्रम् यो देह्यो अनमयद्वधस्मैः यो अर्यपत्रीरुषसश्चकार स निरुध्या नहुषो यह्वो अग्निः विशश्चक्रे परिहृतः सहोभिः प्रसद्यो अग्ने अत्ये एष्यन्यान् आविर्यस्मै चारुतरो बभूथ क्रीडेऽन्योपपुष्यो विभावा क्रियाविषापति धर्मानुषीणाम् ब्रह्म ज्येष्ठा वीर्यासम्भृतानि ब्रह्माग्रे ज्येष्ठम् दिवमाततान ऋतस्य ब्रह्म प्रथमातजज्ञे तेनार्हति ब्रह्मणा स्पर्धितुङ्गः ब्रह्मसृचो धृतवतीः ब्रह्मणा स्वरवो मिताः ब्रह्मयज्ञस्य तन्तवः ऋत्विजोयेहविष्कृतः शृङ्गाणी वेच्छृङ्गिणा गुम्सम् दधिश्रिरे चषालवन्तः स्वरवः पृथिव्याम् ते देवासस्वरवस्तस्थिवागुंसः नामः सखिभ्यः सन्नान्मापगात अभिभोरग्रतरद्रजागुंसि स्पृधो विहत्य पृतरा अभिश्रीः युषाणो म मा आहुतिम् मामहिष्ट हत्वा सपत्नानि परिवस्करन्नः ईशानम् त्वा भुवनानामभिश्रियम् स्तौम्यग्न उरुकृतगुम् सुवीरम् हविर्जुषाणः सपत्नागुम् अभिभोरसि जहिशत्रो गुम्प्रपमृधोऽनुगस्व स प्रत्नवन्नबीजसा अग्नेद्युम्नेन संयता बृहत्ततन्सभानुना न वन्द स्तोममग्नये वसोः कुविध्वनादिनः स्वारुहायस्य श्रियो द्विषे रयर्वेरवतो यथा अग्रे यज्ञस्य चेततः पदाभ्यः पुर एता अग्निर्विषाम् मानुषीणा तोर्येरथः स दानवः नभगुंसो मायवाजिने आज्यम्पयसो जनि दुष्टगुंसिचितमम् वसो नवगम् सोमजुषस्वनः पीजोषस्येहतृप्नुहि यस्ते भागरुतावजाम् नवस्य सोमते वजाम् आशुमतिम् वृणीमहे स नो रास्वसहस्रिणः नवगम् तदङ्गप्रतिहर्यनः राजन् सोम स्वस्तये नभगस्तोमन्नवगम् हविः इन्द्राग्निभ्यान्निवेदय तज्जुषे पाकम् सचेतसा सुचिन्नस्तामन्नवजातमद्य इन्द्राग्नेरुत्रहणा जुषेधा उभागम् सुहबाजो हवीमि तावाजगम् सद्य उशते धेष्ठा अग्निरिन्द्रो नवस्य नः अस्य हव्यस्य तृप्यता इह यज्ञम् न आहि गच्छताम् वसुमन्तकम् सुवर्विदम् अस्य हव्यस्य तृप्यताम् अग्निरिन्द्रो नवस्य नः विश्वाम् देवाविस्तर्पयत हविषोऽस्य नवस्य नः सुवर्विदो हि जग्विरे एदम्बर्हिः सुष्टरी मानवेन अयम् यज्ञो भागः अयम् बभो विश्वे देवा इदमद्यागमिष्ठाः इमे वा पृथिवी समीची तन्वाने यज्ञम् संधिया। आस्मै प्रणीताम् भुवनानि विश्वा प्रजां पुष्टिममृतम् न वेन इमे धेनो अमृतम् ये जुहातेः पयस्वत्युत्तरा मे तु पुष्टिः इमम् समीचीद्यावार्चिबीघृताची यविष्ठोहव्यवाहनः चित्रभानुर्घृता सुतिः नवजातो विरोचसे अग्ने अग्नेतत्ते महित्वनम् त्वमग्ने देवता आभ्यः भागे देवनमीयसे सजेना विद्वान विद्वान् यक्ष्यसि न वध्यस्तो मञ्जुषस्वनः स हि वेद यथा हविः शिवा अस्मभ्यमोषधीः कृणातुविश्वचर्षणिः भद्रान्नश्रेयः श्रणेश्वदेवाः तया वशेन समशीमहित्वा स रामज भोः पिता आयुषस्व शान्तोकायतनुवेश्यो नः एतमुत्यम् मधुना संयुतयवम् सरस्वत्या अभिमनावतर्कृतो इन्द्र आसीत् शिरपतिः सदक्रदः केनाशा आसन् मरुतः सुदानवः इति द्वितीयाष्टकचतुर्थप्रश्नः